चमकखनम् अनुवागं त्रि सञ्च चषगं सञ्च मे मे चषगुं मे च मे मे चच मे मयो मयो मयो मयो मे मे मयश्च मह्यश्च च मयो मयश्च मे मे च मयो मयश्च मे प्रियं प्रियं मे प्रियं मे प्रियं प्रियं मे प्रियं च मे मे प्रियं च प्रियं च प्रियं प्रियं च मे मे च च मेनुकामोनुकामो मे च च मेनुकामः मे मेनुकामश्च चानुकामो मे मेनुकामश्च अनुकामश्च चानुकामोनुकामश्च मे मे चानुकामोनुकामश्च मे अनुकाम इत्यनुकामः च मे मे च च मे कामकामो मे च च मे कामः मे कामक्कामो मे कामश्च च कामश्च कामश्च च कामः कामश्च मे च मे मे चच मे सौ मे च च मे सौ मनसः मे सौमनसौ मनसो मे मे मे मे सौमनसश्च सौमनसश्च च सौ मनस च सौमनसौमनसश्च मे च मे मे च मे भद्रं भद्रं मे च मे भद्रं मे च मे मे चचमे श्रेयश्रेयो मे चचमे श्रेयः मे श्रेयश्रेयो मे मे श्रेयश्चचस्रेयो च मेमे चमे वस्यो वस्यो मे चचमे वस्यः मे वस्यो वस्यो मे मे वस्यश्चो मे मे वस्यश्च वस्यश्चो वस्यश्च मेमे च वस्यो वस्यश्च मे चमे च चमे यशो यशोमे चमे यशः मे यशो यशो मे मे यस्यश्च च यस्यो मे मे यस्यश्च यस्यश्च च यशो यस्यश्च मे मे च यशो यशश्च मे च मे मे च च भगो भगो मे च च भगः मे भगो भगो मे मे भगश्च च भगो मे मे भगश्च भगश्च च भगो भगश्च मेमे मे च भगो भगश्च मे च मे मे च च मे द्रविणं द्रविणं मे च च मे द्रविणं मे द्रविणं द्रविणं द्रविणं च चद्रविणं मे द्रविणं च द्रविणं च चद्रविणं द्रविणं च मे मे द्रविणं च मे च मे मे च च च मे यन्तायन्ता मे च यन्ता मे मे मे यन्ता चचयन्ता मे मे यन्ता च यन्ता च मे मे च मे मे मे च च मे धर्ता धर्ता मे च धर्ता मे धर्ता धर्ता मे मे धर्ता च च धर्ता मे मे धर्ता च धर्ता च च धर्ता धर्ता च मे मे च धर्ता धर्ता च मे च मे मे च च मे क्षेमः क्षेमो मे च च मे क्षेमः मे क्षेमः क्षेमो मे मे क्षेमश्च चक्षेमो मे मे क्षेमश्च चक्षेमः क्षेमश्च मे मे चक्षेमः क्षेमश्च मे च मे मे च च मे च च च मे धृधिः मे मे मे धृदिश्चच मे धृदिश्च धृदिश्च च धृर्धृदिश्च मे मे च धृदिर्धृदिश्च मे च मे मे च च मे विश्वं विश्वं मे च च मे विश्वं मे विश्वं विश्वं मे मे विश्वं च मे मे विश्वं च विश्वं विश्वं विश्वं च च विश्वं विश्वं च मे मे चचमे महो महो मे चचमे महः मे महो महो मे मे महश्चचमहो मे मे महश्च महश्चचमहो महश्च मे मे च महो महश्चमे संविन्मे च चमे मे संवित् संविन्मे मे संविच्च च संविन्मे मे संविच्च संविच्च च संवित् संविच्च मे मे च संवित् संविच्च मे संविदिति संविद च मे मे च च मे ज्ञात्रं ज्ञात्रं मे च च मे ज्ञात्रम् मे ज्ञात्रं ज्ञात्रं मे मे च ज्ञात्रं मे मे ज्ञात्रं च ज्ञात्रं च ज्ञात्रं च मे मे मे च मे मे च च मे सुर्मे शोर् मे मे शोश्च च शोर् मे मे शोश्च मे मे च शोषोश्च मे प्रसूश्च प्रसूश्च च प्रसूः प्रसूश्च मे मे च प्रसूः प्रसूश्च मे प्रसुरिदिप्रसुः च मे मे च च मे शिरगुं शिरं मे च च मे शिरं मे शिरगुं शिरं मे मे शिरं च च शिरं मे मे शिरं सिरं च सिर्घं सिरञ्च मे मे च सिर्घं सिरञ्च मे च मे मे च च मे लयो लयो मे च च मे लयः मे लयो लयो मे मे लयश्चलयो मे मे लयश्च लयश्च चलयो लयश्च मे मे चलयो लयश्च मे चमे मे च च मरुदं मृदं मे चचमरुदं मरुदं मृदं चमे मे च च मे मृदं मे मृदम मृदं मे मे मृदं च चामृदं मे मे मृदं च अमृतं चामृदम मे मे चामृदम मृदं च मे च मे मे च च मे यक्ष्म यक्ष्मं मे यक्ष्मम यक्ष्मं मे मे यक्ष्मं चायक्ष्मं मे मे यक्ष्मं च अयक्ष्मं चा यक्ष्मम यक्ष्मं च मे मे चा यक्ष्मम यक्ष्मं च मे च मे मे च च मे नाम यद नामयन्मे जेनामयद मे नामयद नामयन्मे मे नामयच्च चा नामयन्मे मे नामयच्च अनामयच्च चा नामयद नामयच्च मे मे च नामयदनामयच्च मे मे च च च मे जीवादुर्जीवादुर्मे च च मे जीवादर्जिवादर् मे मे जीवादश्च च जीवादर् मे मे जीवातुश्च च जीवादर्जीवादश्च मे मे च जीवादर् जीवातुश्च मे च मे मे च च मे दीर्घाय त्वं मे च च मे दीर्घाय मे दीर्घायुत्वं दीर्घायुत्वं मे मे दीर्घायुत्वं च दीर्घायुत्वं मे मे दीर्घायुत्वं च दीर्घायुत्वं च दीर्घायुत्वं दीर्घायुत्वं च मे मे च दीर्घायुत्वं दीर्घायुत्वं मे दीर्घायुत्वमिति त्वं च मे मे च च मेन मित्रमनमित्रं मे च च मेन मित्रं मेन मित्रमनिमित्रं मे मनमित्रं चानमित्रं मे मेन मित्रं च अनमित्रं च चानमित्रमनमित्रं च मे मे चानमित्रमनमित्रं च मे चमे मे च च मे भयं भयं मे च च मे भयं मे मे मे भयं चा भयं मे मे भयं च चा भयं भयं मे मे च भयं भयं मे चमे मे सुगगुं सुगं मे च च मे सुगं सुगं मे मे सुगञ्चज सुगं मे मे सुगं च सुगञ्चज सुगगं मे मे ज सुगगं सुगं च मे च मे मे च च मे शयनगुं मे च च मे मे शयनगुम् शयनं मे मे शयनं च च शयनं मे मे शयनं च शयनं च च शयनं गं शयनं च मे मे च शयनं गं शयनं च मे च मे मे च च मे शोषा सूषा मे च च मे शूषा मे शोषा शोष मे मे शोषा चोषमे मे शोषा च शोषा च चषोषोषा च मे मे चषोषा च मे सुषेति सुषा च मे मे च मे सुदिन गुं सुदिनं मे च च मे सुदिनम् मे सुदिन गं सुदिनं मे मे सुदिनं च सुदिनं मे मे च सुदिनं च च मे मे ज सुदिनगं सुदिनं